श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्यां नमः अथ श्री शिवमहापुराणे विद्येश्वरसंहितायाम् एकोनविंशोऽध्यायः पार्थिवपूजन महात्म्यम् भस्मप्रकाराभिधानं च ऋषयोचु सोत सूत चिरञ्जीवै धन्यस्थम् शिव भक्तिमान् सम्यगुक्त त्वयालिङ्गत्फलप्रद यत्र पार्थिव माहेश लिङ्गस्य महिमाधुना सर्वोत्कृष्ट कथितो व्यासतो गृहीतम् पुनः स्तोवाच तृणुध्वम् मृष्य सर्वे सद्भक्त्या तरदोकिला शिव पार्थिव लिङ्गस्य महिमा प्रोच्यते मया उक्तेष्वैतेषु लिङ्गेषु पार्थिवम् लिङ्गमुत्तमम् तस्य पूजनतो विप्रा भवसिद्धिमागतः हरिर्ब्रह्मा च ऋषये स्वप्रजा पतयस्तथा सम्पूज्य पार्थिवं लिङ्गम् प्रापु सर्वेप्सितं द्विजा देवासुरमनुष्या च गन्धर्वो रगराक्षसः अन्येऽपि तं सम्पूज्य गता कृते रत्नमयं लिङ्गम् त्रेतायां हेमसम्भवम् द्वापरे पारदं श्रेष्ठम् पार्थिवं तु कलो युगे अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवीवरः अनन्ये पूजिता विप्र ततः तस्मान् यथा सर्वेषु देवेषु ज्येष्ठ श्रेष्ठमहेश्वरः एवं सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा सर्वेषु मन्त्रेषु प्रणवो हि महान् तदेवम् पार्थिवम् श्रेष्ठम् आराध्यम् पूज्यमेव हि यथा सर्वेषु वर्णेषु ब्रह्मणे श्रेष्ठमुच्यते तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा पुरीषु सर्वासु काशी श्रेष्ठतमा स्मृता तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथाव्रतेषु सर्वेषु शिवरात्रे व्रतम् परम् तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा देवीषु सर्वासु शैवी शक्ति परा तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते प्रकृत्य पार्थिवम् लिङ्गम् इद्देवम् प्रपूजयेत् वृथा भवति सा पूजा वृथा पार्थिवाराधनं पुण्यम् धन्यम् मायुर्विवर्धनम् तुष्टिरम् कूष्ठदम् श्रीदम् कार्यं साधक सत्तमयि यथालब्धोपचारै च भक्ति श्रद्धा समन्वितः पूजयेत् पार्थिवम् लिङ्गम् सर्वकामार्थसिद्धिदम् यः कृत्वा पार्थिवम् लिङ्गम् पूजयेत् अन्ते रुद्रोभियते त्रिसन्ध्यम् योचे लिङ्गम् कृत्वा बिल्वेन पार्थिवं, दशैकादशकम् यावत् तस्य पुण्यफलम् शृणु अनेनैव स्वदेहेन रुद्रालोके महीयते पापहम् सर्वमर्त्यानाम् दर्शनात् स्पर्शनादपि जीवन्मुक्तस्य वैज्ञानी शिव एव संशयः तस्य दर्शनमात्रेण भुक्तिमुक्ति च दायते शिवम् यः पूजे नित्यम् कृत्वा लिङ्गम् तु पार्थिवम् यावजीवनपर्यन्तम् स यात्री शिवमन्दिरम् मृतेन प्रतिमान् वर्षान् शिवलोके तिष्ठति सकाम राजेन्द्रो भारते भवेत् निष्कामः पूजे पार्थिवं पार्थिवम् उत्तमं, शिवलोके सदा तिष्ठेत् तत्तस्य सायुजमाय सायुज्यमाप्नुयात् पार्थिवम् शिवलिङ्गम् च विप्रो यदि न पूजयेत् स्वयाति नरकं घोरम् शूल प्रोतम् यथा कथञ्चित् विधिना रम्यम् लिङ्गम् प्रकारयेत् पञ्च सूत्रविधानं च पार्थिवेन विचारयेत् अखण्डम् तद्धिकर्तव्यम् न विखण्डम् प्रकारयेत् द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् रत्नजम् हेमजं लिङ्गम् पारदम् स्पाटिकम् तथा पार्थिवम् पुष्परा गोतम् अखण्डं तु प्रकारयेत् अखंडं तु चरम् लिंगं। द्विखण्डम् अचरं स्मृतम् खण्डाखण्ड विचारोऽयं सचराचरयो स्मृतः वेदिका तु महाविद्या लिंगं। देवो महेश्वरः अतो हि स्थावरे लिङ्गे स्मृता श्रेष्ठा द्विखण्डिता द्विखण्डं स्थावरम् लिङ्गम् कर्तव्यं हि विधानतः अखण्डं जङ्गमम् प्रवृत्तं शिव सिद्धान्तवेदिभिः द्विखण्डन्तु चरं लिङ्गम् कुर्वन्त्यज्ञानमोहितः नैव सिद्धान्तवेत्तारो मनय शास्त्र गोविदः अखण्डं स्थावरं ये कुर्वन्ति नर मूढः न पूजाफलभागिनः तस्मात् शास्त्रोक्तविधिना अखण्डं चरसंकम् द्विखण्डं स्थावरम् लिङ्गम् कर्तव्यं परया मुदा अखंडे तु चरे पूजा सम्पूर्ण फलदायिनी द्विखण्डे तु चरे पूजा महानि प्रदास्मता अखण्डे स्थावरे पूजा न कामफलदायिनी प्रत्यवाय करे नित्यम् इत्युक्तम् शास्त्रवेदिभिः इति श्री शिवमापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् साध्यसाधनखण्डे पार्थिव शिवलिङ्गपूजनमात्मवर्णनम् नाम एकौरविञ्चोध्याय श्रीगौरी शङ्करार्पणमस्तु